मार्कण्डेयपुराणम् अध्यायं 107 एण्ड् सेवेन् भानोर्माहात्म्यवर्णनं मार्कण्डेय उवाच ततः प्रसन्नो भगवान् भानुराःखिलाञ्जनान् व्रियतां यदभिप्रेदं मत्तः प्राप्तुं द्विजादयः मार्कण्डेय उवाच तदस्ते प्रणिपत्यो विप्रक्षत्रादयो जनाः ससाध्वसमशीदांशुमवलोक्य पुरस्थितम् प्रजा ऊचुः भगवन्यदिनो भक्त्या प्रसन्नस्तिमिरापः दशवर्षसहस्राणि तदो नो जीवतां नृपः निरामयो निरा उवाच मकंडेय उच भास्वा जनास्व न महामुने, ते लब्धवरा हृष्टा साम जम्मूर्जने यथा वृत्तं च ते तस्मै नरेन्द्रायण्यवेदयन् वरं लब्ध्वा सहस्रांशो सकाशादखिलं द्विज तच्छ्रुत्वा जहृषे तस्य पत्नी मानिनी द्विज प्रहर्षं परमं यादां हर्षोद्गततनूरुहा स च दध्यौ नाह तं जनं ततः भूपं हर्षा पूरिदमानसा दिष्ट्यायुषा महीपालवर्धस्वेत्याहतं पतिं तदा तया मुदा भर्ता मानिन्याधसभाजिदः नाकं किंचिन्मही पालश्चिन्ता जडमनाद्विज सा पुनः प्राक् भर्तारं चिन्तया न मधोमुखं कस्मान्न हर्षमभ्येषि परमाभ्युदये नृप दशवर्षसहस्राणि नीरुजस्थिरयौवनः भावि त्वमद्य प्रभृति किं तथापि न हृष्यसे किन्तु तत्कारणं ब्रूहि यच्चिन्ताकृष्टमानसः परमाभ्युदयेऽप्यत्वं सम्प्राप्ते पृथिवीपदे राजोवाच कथमभ्युदयो भद्रे किम् सभा जयसे दुखसहस्रण किनमीष्यशवर्षसहसा दे। जीविष्यामे नत्वं तव विपक्त मे कि दुखम भविष्य पुत्रन पौत्रा प्रपौत्राश तदन्यनिष्टवान् पश्यद मे मृदा दुखम किमं भविष्य चादि चादीभक् मित्रवर्गे तथा मृते भद्रे दुखमपारे भविष्य सतत त्यैर्मदर्थं तपस्तप्तं कृष्यैर्धमनि सन्ततैः ते मरिष्यन्त्यहं भोगी जीविष्यामीदि धिक्करम् श्रेयमापद्वराहे प्राप्ता नाभ्युदयो मम कथं वा मन्यसे यत्सभा जयसेद्य मां मानिन्युवाच महाराज यथाद्धं तथैतन्नात्र संशयः मया पौरैश्च दोषोऽयं प्रीत्या नालोकितस्तव एवं गदेऽत्र कार्यं नरनाथ विचिन्त्यताम् नान्यथाभावि यत्प्राहप्रसन्नौ भगवान्न्रविः राजोवाच उपकारकृधः पौरैः प्रीत्या भृत्यैश्च यो मम कथं भोक्ष्याम्यहम् भोगान् गत्वा तेषामनिष्कृतिम् ोखमद्य गत्वा नियतमानसः परलोकहितार्थं च तोषयिष्यामि भास्करं यथा पौरा मम कृते बान्धवाश्च समन्तदः आराधनाय देवेशं तथाहमपि तपस्तप्स्ये निराहारो भानो भानोराराधनोद्यदः दशवर्षसहस्राणि यथाहं स्थिरयौवनः तस्य प्रसादाद्देवस्य जीविष्यामि निरामयः तथा यदि प्रजा सर्वा भृत्यास्त्वं च सुताश्च मे पुत्रा पौत्रा प्रपौत्राश्च सुहृदश्च वरान जीवन्त्येदं प्रसादं च करोति भगवान् नविः ततोऽहम्भविदाराज्ये भोक्ष्ये भोगांस्तथा मुदा न चेदेवं करोत्यर्कस्तदाद्रौस्तत्र मानि तपस्तप्स्ये निराहारो यावज्जीवितसङ्क्षयः मार्कण्डेय उवाच इत्युक्ता तदातेन। तदा तेन नराधिपम् जगामतेन च समं सापि तं धरणीधरं सतदायतनं गत्वा भार्यया सह पार्थिवः भानोराराधनं चक्रे शुश्रूषा निरतो निराहारा कृशा च यथासौ पृथिवीपतिः ते पे तपस्तथैवोऽग्रं शीतवादातः पक्षमा तस्य पूजयदो भानुं तप्यतश्च तपो साग्रे संवत्सरे यादे दिवाकरः समस्त भृत्य समस्तभृत्यपौरादिपुत्राणां च कृते द्विज ददौ यथाभिलषितं वरं द्विज द्विजवरोत्तम लब्ध्वा वरं स नृपति समभ्येत्यात्मनः पुरं चकारमुदितो राज्यं प्रजाधर्मेण पालयन् ईजे यज्ञान् स च ददौ दानान्यहर्निशं मानिन्या सहितो भोगान् बुभुजे सधर्मविद दशवर्षसहस्राणि पुत्रपौत्रादिभिः सह भृत्यैः पौत्रैः प्रमुदितः सौभवस्थिरयौवनौ तस्येदिचरितं दृष्ट्वा विस्मया विस्मयाकृष्टहृदयो गाधा मेधामगायत भानुभक्तेरहो शक्तिर्यद्राजा राज्यवर्धनः आयुषो वर्धने जादस्वजनस्य तथात्मनः इति ते कथितं विप्र यत्पृष्टोऽहं त्वयोदितः आदिदेवस्य माहात्म्यमादित्यस्य विवस्वतः विप्रैतदखिलं श्रुत्वा भानोर्माहात्म्यमुत्तमं पठंश्च मुच्यते पापैः सप्त रात्रकृतैर्नरः अरोगी धनवानाढ्यकुले महदि धीमतां जायते च जा महाप्राज्ञो यश्चैतद्धारयेद्बुधः यजते च महायज्ञैः समाप्तवरदक्षिणः श्रुत्वा चरिदमे मानं लभदे फलं मन्त्राश्च येत्राभिहिता भास्वदा मुनिसत्तमा जपः प्रत्येकमे देशा पादकापहः यजते च महायज्ञैः समाप्तवरदक्षिणः श्रुत्वा चरितमे दद्धि समानं लभदे फलं मन्त्राश्च येत्राभिहिताभास्वदो मुनिसत्तम जपः प्रत्येकमेतेषां त्रिसन्ध्यं पातकापहः समस्तमेदन्माहात्म्यं यत्र चायतने पठ्यते तत्र भगवान् सान्निध्यं न विमुञ्चति तस्मादेध्वया ब्रह्मन् भानोर्माहात्म्यमुत्तमं धार्यं मनसि जाप्यं च महत्पुण्यमभीप्सदा सुवर्णशृङ्गीमधिशोभनाङ्गीं पयश्विनीं गां प्रददाधि यो हि शृणोदि चैदत्र्यहमात्मवान्नरः समं तयोः पुण्यफलन् द्विजाग्र्य इति श्रीमार्कण्डेयपुराणे भानोर्माहात्म्यवर्णनं नाम सप्ताधिकशततमोऽध्यायः ओ